गरुडपुराणम् आचारकाण्डम् अध्यायम् हण्ड्रेड् अण्ड् फिफ्टीन् सूत उवाच कुमार्यां च च कुराजानां कुपुत्रकाम् कुकन्यां च कुदेशं च दूरतः परिवर्जयेद् धर्मप्रव्रजितस्तपः प्रचलितम् सत्यं च दूरम् गदम् पृथ्वी वन्ध्यफला जना कपडिनो लौल्ये स्थिता ब्राह्मणाः मर्त्या स्त्री वशगास्त्रियश्च चपला नीचा जना उन्नदाः हा कष्टम् खलु जीवितम् धन्याज्जना ये मृताः धन्यास्ते येन पश्यन्ति देशभङ्गम् कुलक्षयम् परचित्तकतान् दारान् पुत्रम् कुव्यसने स्थितम् कुपुत्रे निर्वृद्धिर्नास्ति कुभार्यायाम् कुदोरधिः सुमित्र नास्ति विश्वासकुराज्ये नास्ति जीवितम् परान्नं च परस्वं च परशय्याः परस्त्रियः परवेश्मनि वासस्तशक्रादभिहरेच्छ्रियम् आलापागात्र संस्पर्शात् संसर्गात् सहभोजनाद भोजनाद आसनाच्चयनाध्यानात् संक्रमदे सङ्क्रमदे स्त्रियो नश्यन्तिरूपेण तपक्रोधेन गावो गावोद्वरप्रचारेण शूद्रान्ने द्विजोत्तमः आसनादेकशय्यायाम्भोजनात् पङ्क्तिसङ्कराद तदः सङ्क्रमदे पापं कडाद्धड इवोदकम् लालने बहवो दोषास्ताडने बहवो गुणाः तस्माच्छिष्यम् च पुत्रम् च ताडयन्न लालयेद् अध्वा जरा देहपदाम् पर्वतानां जलम् जरा असम्भोगश्च नारीणाम् वस्त्राणामातपो जरा अधमा कलिमिच्छन्ति सन्धिमिच्छति मध्यमाह उत्तमानमिच्छन्ति मानो हि महदाम् धनम् मानो हि मूलमर्धस्य माने सदि धनेन किम् प्रभ्रष्टमानदर्पस्य किम् धनेन किमायुषा अधमाधनमिच्छन्ति धनमानौ हि मध्यमाः उत्तमानमिच्छन्तिमानो हि महदान् धनम् वनेऽपि च बुभुक्षिता मांसनिरीक्षणं च धनैर्विहीना सुकुलेषु जादा ननी च नाभिषेको न संस्कारसिंहस्य क्रियते वने नित्यमूर्झितसत्त्वस्य स्वयमेव मृगेन्द्रदा वणिप्रमादी भृगश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्दे दादादरिद्रकृपणोर्धयुक्द पुत्रो विधेयः कुजनस्य सेवा परोपकारेषु नरस्य मृत्युप्रजायदे दुश्चरिदानि पञ्च कान्तावियोगस्वचनापमानम् ऋणस्य च से शक्ुजनस्य सेवा दारिद्र्ययाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः छिन्दासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः नीचापमानम् क्षुधितम् कलत्रं भार्या सहजो परोथः, वश्यश्च पुत्रेऽर्थकरीजविद्या अरोगिदा सज्जनसङ्गतिश्च इष्टा च भार्यावशवर्धिनी च दुःखस्य मूलोद्धरणानि पञ्च कुरङ्गमादङ्गपदङ्गभृङ्गमीनाहधा पञ्चभिरेव पञ्च एकप्रमाधी स कथं न ख्यादो यस्येवदे पञ्चभिरेव पञ्च अधीरकर्कस्य स्तब्धः कुचेलः स्वयमागतः पञ्चविप्राणपूज्यन्ते बृहस्पतिसमा अपि आयुः कर्म च वित्तम् च विद्यानि धनमेव च पञ्चयितानि विविच्यन्ते जायमानस्य देहिनः पर्वतारोकणे तोये गोकुले दुष्टनिग्रहे पदितस्य समुत्थाने शस्ता पञ्चगुणा स्मृताः अभ्रच्छायाकले प्रीतिपरनारीषु सङ्गतिः पञ्चैदेह्यस्थिराभावा यौवनानि धनानि च अस्थिरम् जीवितम् लोके अस्थिरम् धनयौवनम् अस्थिरम् पुत्रधाराध्यम् धर्मकीर्तिर्यस्य शतजीवितमत्यल्पम् रात्रिस्तस्यार्धहारिणी व्याधिशोकजराया सैरर्धम् तदपि निष्फलम् आयुर्वर्षशतम् नृणाम् परिमिदम् रात्रौ तदर्धम् गतम् तस्यार्धस्थित किञ्चिदर्थमधिकम् बाल्यस्य काले गदम् बियोग किञ्चिद्वन्धु वियोगदुःखमरणैर्भूपालसेवागतं शेषं वारिदरङ्गगर्भचपलम् मानेन किम् मानिनाम् अहोरात्रमयो लोके जरारूपेण सञ्चरेत मृत्युर्ग्रसदिभूतानि पवनं पन्नगो यथा गच्छ तस्तिष्ठतो वापिजाग्रदस्वपदो न चेद सर्वः सत्त्वहितार्थाय पशोरिव विचेष्टितम् अहितहितविचारशून्यबुद्धे श्रुतिसमये को विशेषक शौर्ये तपसिदाने च यस्य न प्रथितं यशः विद्यायामर्धलाभे वा मादुरुच्चार एव सः यज्जीव्यदेक्षणमपि प्रथिदं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञा काकोऽपि जीवति चिरं च बलिं च भुङ््रे किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीदिसशङ्कितेन सिंहव्रतं चरदगच्छदमाविषादं काकोऽपि जीवति चिरं च बलिं च भुङ््रे यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयाम् न नच न च मित्रकार्ये किम् तस्य जीवितफलेन मनुष्यलोके काकोऽपि जीवति चिरम् च बलिम् च भुङ्क्ते यस्य त्रिवर्गशून्यानि दिनान्या यान्ति यान्ति च सलौहकारभस्त्रेव स्वसन्नपि न जीवति स्वाधीनवृत्ते साफल्यं न पराधीनवर्धिता ये पराधीनकर्माणो जीवन्तोऽपि च ते मृदाः सुपुरा वै कापुरुषासु पूरोमूषिकाञ्जलिः असन्तुष्ट का पुषस्वनाष्यति अभ्रचाया तृणादग्निर्नोच सेवापथो जलम भेश्य राघकली प्रीतिषेदे बुद्बूप लोको न चुखाते जीवितद मानमूल हिमाने म्लाने कुदः सुखम् अबलस्य बलम् राजा बालस्य रुदिदम् बलम् बलम् मूर्खस्य मौनम् हितस्करस्य नृदम् बलम् यथा यथा हि पुरुषशास्त्रम् समधिगच्छति तथा तथास्य मेधास्याद्विज्ञानम् चास्य रोचते यथा यथा हि पुरुषकल्याणे कुरुते मदिम् तथा तथा हि सर्वत्र श्लिष्यदे लोभसुप्रियः लोभप्रमाद विश्वासै पुरुषो नश्यति तृभिः तस्माल्लोभो न कर्तव्यप्रमादो नो न विश्वसेद तावद्भयस्य भेदव्यं यावद्भयमनागतम् उत्पन्नेदुभये तीव्रे तादव्यम् वैह्यभीतवद ऋणशेषम् चाग्निशेषम् व्याधिशेषम् तथैव च पुनः पुनः प्रवर्धन्ते तस्माच्छेषम् न कारयेद कृते प्रतिकृतम् कुर्याद्धिंसिदे प्रतिहिंसिदम् न तत्र दोषम् पश्यामि दुष्टे दोषम् दुष्याम समाचरेद परोक्षे कार्यभन्तारम् प्रत्यक्षे प्रियवादिनम् वर्जयेत्तादृशम् मित्रम् मायामयमरिम् माया तथा दुर्जनस्य हि सङ्गेन सुजनोऽपि विनश्यति प्रसन्नमभि पानीयम् गर्दमयि कलुषीकृतं सभुङ््रे सद्विजो भुङ््रे समशेषनिरूपणम् तस्मात् सर्वप्रयत्नेन द्विजपूज्यप्रयत्नतः तद्भुज्यते यद्विजभुक्तशीर्षं सबुद्धिमान्यो न करोति पापं परोक्षे दम्भैर्विना सधर्मः। क्रियते वृद्धाः वृद्धा न देयेन वदन्ति धर्मम् धर्मः स नो यत्र न सत्यमस्ति नैदत्सत्यम् यच्चलेनानुविद्धम् ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् शिरोऽपि सर्वगात्राणाम् व्रतानाम् सत्यमुत्तमम् तन्मङ्गलम् यत्र मनः प्रसन्नम् तज्जीवनम् यन्नपरस्य सेवा तदर्जिदं यत् स्वजनेन भुक्तम् तद्गर्जितं यत् समरे हि पूनाम् शास्त्रीयानमदम् कुर्याः स सुखी तृष्णयोच्छिदः तन्मित्रं यत्र विश्वासपुरुषः स जितेन्द्रियः तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् तदेव केवलं स्वख्यं यस्यात्मा क्रियते स्तुतौ नदीनामग्निहोत्राणां भारतस्य कलस्य च मूलान्वेषो न कर्तव्यो मूला दोषो न हीयते शैशून्यम् जनवारुदान्तम् वित्तम् दुःखत्रयान्तम् राज्यश्रीर्ब्रह्मशापान्दा पापान्दम् ब्रह्मवर्चस्वम् आचान्दम् घोषवासान्दम् कुलस्यान्दम् स्त्रिया प्रभो सर्वे क्षयान्दानिलया पदनान्दाः समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितं यदीच्छेत् पुनरागन्तुं नादिदूरमनुव्रजेद उदकान्तान्निवरुतेद स्निग्धवर्णाच्च पादयेत् पादपाद अनायकेन वस्तव्यं न चैव बहुनायके स्त्रीनायकेन वस्तव्यं वस्तव्यम् बालनायके पिता रक्षदि कौमारे भर्ता रक्षदि यौवने पुत्रस्तु स्तविरे काले न स्त्री स्वातन्त्र्यमर्हति त्यजे द्वन्द्व्यामष्टमेऽब्दे नवमेदुमृदप्रियाम् एकादशे स्त्रीजननी सद्यश्चा प्रिया वादिनीम् अनर्दित्वान् मनुष्याणां भिया परिजनस्य च अर्धा तपेदमर्यादास्त्रयस्तिष्ठन्ति अश्वं श्रान्तं गजं मत्तं गाव प्रथमसूदिकाः अनूदके च मण्डूकान् प्राज्ञो दूरेण वर्जयेद अर्धातुराणाम् न सुहृन्न बन्धुकामातुराणाम् न भयम् न लज्जा चिन्धातुराणाम् न सुखम् न निद्रा क्षुधा तुराणा न बलम् न तेजः कुतो निद्रा दरिद्रस्य परप्रेष्य वरस्य प्रसक्तस्य परद्रव्यहरस्य च सुखम् स्वपितृ सुखम् स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः सावकाशस्तु वैभुङ्क्ते यस्तु दारैर्नसङ्गतः अम्भसः परिमाणे उन्नतम् स्वस्वामिना बलवदा भृत्यो भवति पद्मस्य मित्रे वरुणभास्करौ स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ये पदस्थस्य मित्राणि ते तस्य रिपुदां गदाः भानोपद्मे जले प्रीदि स्थलोद्धरणशोषणः स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे पूज्यन्ते केश दन्दा नखा नराः आचार्यकुलमाख्यादिदेशमाख्यादिभाषितम् सम्भ्रमस्नेहमाख्यादिवपुराख्यादि भोजनम् वृथा वृष्टिः समुद्रस्य वृद्धा तृप्तस्य भोजनं वृद्धा दानं समृद्धस्य नीचस्य सुकृदं वधा दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः हृदयादपि निष्क्रान्तसमीपस्थोऽभिदूरदः मुखभङ्गस्वरो दीनो गात्र स्वेदो महद्भयम् मरणे यानि चिह्नानि तानि चिह्नानि याचके कुब्जस्य कीटपादस्य वादान्निष्कासितस्य च शिखरे वसतस्तस्य वरं जन्म न याचितं याचित्वा विष्णुर्वामनदां यतः कान्योऽधिकतरस्तस्य का योर् ो यादिनलाघवम् मादा शत्रुः पिता वैरीबाला येन न पाठिताः सभामध्येन शोभन्ते हंसमध्ये बकायथा विद्या नाम कुरूपमधिकं विद्यादिगुप्तम् धनम् विद्या साधुकरी जनप्रियकरी विद्या विद्यागुरूणां गुरुः विद्याबन्धुजनार्तिनाशनकरी विद्यापरं दैवतं विद्याराजसुपूजिताहिमनुजो विद्याविहीनः पशुः गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते अशेषं हरणीयं च विद्या नः ह्रियते परैः शौनकीयं निधिसारं विष्णुः सर्वत्र तानि च कथयामास वै पूर्वं तत्र शुश्राव शङ्करः शङ्करादशृणोध्व्यासो व्यासादस्माभिरेव च यदि श्रीगारूढे महापुराणे आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः ओम्